नारदपुराणम् पूर्वार्थम् अध्यायम् फैव् नारद उवाच ब्रह्मन् कथं स भगवान् मृकण्ठो पुत्रतां गतः किं चकार च तद्ब्रूहि हरिर्भार्गववंशजः श्रूयते च पुराणेषु मार्कण्डेयो महामुनिः अपश्यद्वैष्णवीम् मायाम् चिरञ्जीव्यस्य सम्प्लवे सनक उवाच शृणुमारदवक्ष्यामि कथामेधाम् सनातनीम् विष्णुभक्तिसमायुक्ताम् मार्कण्डेयमुनिम् प्रदि तपसोन्दे मृकण्ठुस्तु भार्यामुद्वाह्य सप्तमः कार्हस्त्य मकरो दृष्टः शान्दो तस्य भार्या शुचिर्दक्षा नित्यं पदिपरायणा मनसा वचसा चापि देहेन च पतिव्रता काले दधारसागर्भं हरितेज ॐ शम्भवम् सुषुवे दशमासान्ते पुत्रम् तेजस्विनम् परम् सर्षिः परमप्रीतो दृष्ट्वा पुत्रम् सुलक्षणम् जातकम् कारयामासमङ्गलम् विधिपूर्वकम् सबालो ववृधे तत्र शुक्लपक्ष इवोडुपः तदस्तु पञ्चमे वर्षे उपनीयमुदान्विदः शिक्षां चकारविप्रयन्द्र वैदिकीम् धर्म संहिताम् नमस्कार्या द्विजा पुत्र सदा दृष्ट्वा विधानतः त्रिकालम् सूर्यमभ्यर्च्य सलिलाञ्चलिदानदः वैदिकम् कर्म कर्तव्यम् वेदाध्ययनपूर्वकम् ब्रह्मचर्येण तपसा पूजनीयो हरिसदा निषिद्धं वर्जनीयं स्याद्दुष्टसम्भाषणादिकं साधुभिः सह वस्तव्यम् विष्णुभक्तिपरैः सदा न द्वेष कस्यचित् कार्य सर्वेषाम् हितमाचरेत यज्याध्ययनदानानि सदा कार्याणि ते सुत एवं मार्कण्डेयो मुनीश्वरः चचारधर्मं सततं सदा संचिन्तयन् हरिम् मार्कण्डेयो महाभागो दयावान् धर्मवत्सलः आत्मवान् सत्यसन्धश्च मार्ताण्डसदृशप्रभः पशी शान्तो महात्मानी सर्वतत्त्वार्थकोविदः तपश्चचारपरममच्युतप्रीतिकारणम् आराधितो जगन्नाथो मार्कण्डेयेन धीमदा पुराणसहिताम् कर्तुम् दत्तवान्नुवरमच्युदः मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः िरजीवि महाभक्तो देवदेवस्य चक्रिणः जगत्येकार्णवीभूते स्वप्रभावं जनार्दनः तस्य दर्शयितुं विप्रास्तं न संहृतवान् हरिः मृकण्डुतनयो धीमान् विष्णुभक्तिसमन्वितः तस्मिन् जले महाकोरे स्थित वाञ्छीर्णपत्रवद मार्कण्डेय स्थितस्तावद्यावचेदे हरिस्वयम् तस्य प्रमाणं वक्ष्यामि कालस्य वदत शृणो दशभि पञ्चभिश्चैव निमैषैः परिकीर्तिता काष्ठात्तत्रिंशदो ज्ञेया कलपद्मजनन्दन तत्त्रिंशतो क्षणो ज्ञेयस्तैषभिर्घटिका स्मृता तद्वयेन मुहूर्तं स्याद्दिनम् तत् त्रिंशदा भवेद् त्रिंशद्दिनैर्भवेन्मासः पक्षद्विधय संयुगः ऋतुर्मासद्वयेन स्यात्तत्र येणायनम् स्मृतं तद्द्वयेन भवेद् अब्धत् स देवानां दिनं भवेद् उत्तरं दिवसं प्राहु रात्रिर्वै दक्षिणायनं मानुषेणैव मासेन पितॄणां दिनमुच्यते तस्मात् सूर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमं दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् दहिवे युगसहस्रे द्वे ब्राह्मकल्पौ तुतौ नृणां एकसप्ततिसङ्ख्यादैर्दिव्यैर्मन्यन्तरं युगैः चतुर्दशभिरेतैश्च ब्रह्मणो दिवसं मुने यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता तस्मिन्काले जगत्त्रयम् मानुषेण सहस्रेण यत्प्रमाणम् भवेत्तृणु चतुर्युगसहस्राणि ब्रह्मणो दिवसम् मुनि तद्वन्मासोवत्सरश्च ज्ञे यस्तस्यापि वेधसः परार्धद्वयकालस्तु तन्मते न भवेद्विजाः विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता मृकण्डु तनयस्तावस्थितः संजीर्णपर्णवद तस्मिन् घोरे जलमये विष्णुशाक्त्युपब्रंहितः आत्मानं परमं ध्यायन् स्थितवान् हरिसन्निधौ अधकाले काले योगनिद्राविमोचितः सृष्टवान् ब्रह्मरूपेण जगदेतच्चराचरं संहृतं तु जलं वीक्ष्य श्रृष्ठं विश्वं मृगण्डुजः विस्मितः परमप्रीतो वन्दे चरणौ हरेः शिरस्य अञ्जलिमाधाय मार्कण्डेयो महामुनिः तुष्टाववाग्भिरिष्टाभिः सदानन्दैकविग्रहम् मार्कण्डेय उवाच सहस्रशिरसन्देवं नारायणमनामयम् वासुदेवमनाधारम् प्रणतोऽस्मि जनार्दनम् अमेयमजरं नित्यं सदानन्दैकविग्रहम् अप्रतर्क्यमनिर्देश्यम् प्रणतोऽस्मि जनार्दनम् अक्षरम् परमं नित्यम् विश्वाक्षम् विश्वसम्भवम् सर्वतत्त्वमयं शान्तम् प्रणतोऽस्मि जनार्दनम् पुराणम् पुरुषम् सिद्धम् सर्वज्ञानैकभाजनम् परात् परतरं रूपम् प्रणतोऽस्मि जनार्दनम् परं ज्योतिः परं धाम पवित्रम् परमं पदम् सर्वैकरूपम् परमम् प्रणतोऽस्मि जनार्दनम् सगुणम् निर्गुणम् शान्तम् मायातीदम् सुमायिनम् अरूपम् बहुरूपम् तम् प्रणतोऽस्मि जनार्दनम् यत्र तद्भगवान् विश्वम् सृजत्यवधिहन्ति च तमादिदेवमीशानम् प्रणतोऽस्मि जनार्दनम् परेश्व परमानन्दशरणागतवत्सल त्राहिमाम् करुणासिन्धो मनोऽतीत नमोऽस्तु ते एवं स्तु वन्दम् विप्रेन्द्रम् मार्कण्डेयम् जगद्गुरुम् उवाच परया प्रीत्या शङ्खचक्रगदाधरः श्रीभगवान् उवाच लोके भागवताय च भगवद्भक्तमानसाः तेषाम् तुष्टो न सन्देहो रक्षाम्येधांश्च सर्वदा अहमेव द्विजश्रेष्ठनित्यम् प्रच्छन्नविग्रहः भगवद्भक्तरूपेण लोकान् रक्षामि सर्वदा मार्कण्डेय उवाच किं लक्षणा भागवता जायन्ते केन कर्मणा एतदिच्छाम्यहम् श्रोतुम् कौतूहलपरो यतः श्रीभगवान् उवाच लक्षणं भागवदानां शृणुष्व मुनिसत्तम वक्तुं तेषां प्रभावं हि शक्यदे नाब्दकोटिभिः ये हि दा गदासूया अमत्सराः वशिनो निःस्पृहा शान्तास्ते वै कर्मणा मनसा वाचा परपीडाम् न कुर्वते अपरिग्रहशीलाश्च ते वै भागवता स्मृताः सत्कथाश्रवणे येषाम् वर्तते सात्विकी मतिः तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः मातापित्रोश्च शुश्रूषाम् कुर्वन्ति ये, ये नरोत्तमाः गङ्गाविश्वेश्वर धि धि धि धि धि धि धिया ते वै भागवतोत्तमाः यदुदेवार्चनरता यदु तत्साधका स्मृताः पूजां च यदीनां च परिचर्यापराश्च वियुक्तपरनिन्दाश्च ते वै भागवतोत्तमाः सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ये गुणग्राहिणो लोके ते वै भागवतास्मृताः आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः तुल्याशत्रुषु मित्रेषु ते वै भागवतोत्तमाः धर्म शास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये सदां शुश्रूश्रवो ये च ते वै भागवतोत्तमाः व्याकुर्वदे पुराणानि तानि शृण्वन्ति ये तथा तद्वक्तरिजभक्ता ये ते ये गोब्राह्मणशुश्रूषां कुर्वदे सततं नराः तीर्थयात्रापरा ये च ते वै दृष्ट्वा येऽभिनन्दन्ति मानवाः हरिनामपरा ये च ते वै भागवतोत्तमाः तडागपरिरक्षकाः कासारकूपकर्तारस्ते वै भागवतोत्तमाः ये वै तडागकर्तारो देवः सत्मानि कुर्वते गायत्री निरदाये च ते वै भागवतोत्तमाः ये भिन्नन्दन्दिनामानि हरिश्रुत्वा विकर्षिताः रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः तुलसीकाननं दृष्ट्वा ये नमस्कुर्वदे नराः तत्काष्ठाङ्गितकर्णा ये दे वै भागवतोत्तमाः तुलसीगन्धमाघ्राय सन्तोषं कुर्वदे तु ये च ते वै भागवतोत्तमाः आश्रमाचारनिरतास्तथैवातिथिपूजकाः ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः शिवप्रिया शिवासक्ता शिवपादार्चने रदाः त्रिपुण्डारिणो ते वै भागवतोत्तमाः व्याहरन्दिजनामानिहरे शम्भो महात्मनः रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ये यजन्ति महादेवम् क्रतुभिर्बहुदक्षिणैः हरिंवा परया भक्र्या ते वै भागवतोत्तमाः विदितानि जश्शास्त्राणि परार्थम् प्रवदन्ति ये सर्वत्र गुणभाजो ये ते वै शिवे च परमेशे च विष्णौ च परमात्मनि समबुद्ध्या प्रवर्तन्ते ते वै भागवता स्मृताः शिवाग्निकार्यनिरताः पञ्चाक्षरजपे च ते वै भागवतोत्तमाः पानीय येन दानरतास्तथा एकादशीव्रतरथा ते वै भागवतोत्तमाः कोदाननिरदायेज कन्यादानरताश्च ये मदर्थं कर्मकर्तारस्ते वै भागवतोत्तमाः ये भागवदा विप्रकेजिदत्र प्रकीर्तिताः मायापि गदितुं शक्या नाब्दकोडिशदैरपि तस्मात् त्वमपि विप्रयन्द्र सुशीलो भव सर्वदा सर्वभूताश्रयो दान्तो मैत्रो धर्मपराहणः पुनर्युगान्तपर्यन्तं धर्मं सर्वं समाचरन् मन्मूर्तिध्याननिरतः परनिर्वाणमाप्स्यसि एवम् मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः गत्वा वरं स देवेशस्तत्रैवान्तरधीयत मार्कण्डेयो महाभागो हरिभक्तिरथ चचार चचारपरमम् धर्ममीजे च विधिवन्मखैः शालग्रामे महाक्षेत्रे ततापपरमम् तपः ध्यानक्षपितकर्मादुपरम् निर्वाणमाप्तवान् तस्माज्जन्तुषु सर्वेषु हृदकृद्धरिपूजकः खुदा ईप्सितम् मनः स यद्य तत्तदाप्नोत्यसंशयम् सनक उवाच एतत्सर्वम् निगदितम् त्वया पृष्ठम् द्विजोत्तम भगवद्भक्तिमाहात्म्यं किमन्यत्रोदुमिच्छसि इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ओम्